विष्णुमहिम्नस्तोत्रम् श्रीगणेशाय नमः महिम्नस्ते पारं विधिहरणफणीन्द्रप्रभृतयो विदुर्नाद्यप्यज्ञश्चलमदिरहो नाधनुकथं विजानीया मद्धा नलिनयनात्मीयवचसो ना विशु्य वक्षा सदपि तो तथा स्वधिदुर्ब्रह्मके पुरुषमितरे कर्मच परे पे बुद्धम चे शिविच दादारमपरे तथा चक्र के जित गणपतिमुदार्कं च सुधियो मदीनां वैभेदात्त्वमसि तदशेषं मम मतिः शिवः शिरसि धृतवानादरयुधं तथा शक्तिश्चासौ तव तनुजतेजो मयतनुः दिनेशं चैव तव नयनमू नियमास्त्वदन्यः कोऽध्येयो जगदि किल देवो वद विभो क्वचिन्मत्स्य कूर्मः क्वचिदपि वराहो नरहरिः रामो दशरथसुतो नन्दतनयः क्वचिद्बुद्धकल्किर्विहरसि कुभारापहृदये स्वतन्त्रो ज्यो नित्यो विभुरपि तवाक्रीडनमिदं हृदाम्ना येनोक्तं स्तवनवरमाकर्ण्यविधिना द्रुतमात्स्यं धृत्वा वपुरजरशङ्खात्सुरमथो क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधेरशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् निमज्जन्तं वार्धौ नगवरमुपालोक्य सहसा ितार्थम् देवानां कमठवपुषाविश्य गहनम् पयोराशिम् पृष्ठे तमजिदसलीलम् किमु सुलभाराय हिरण्याक्षः क्षोणीमविशदसुरो नक्रनिलयं समाधायामर्त्यैः कमलजुमुखैरम्बरगतैः स्तुते नानन्दात्मन्न चिरमवभाधि स्म विहृदा त्वया दंष्ट्राग्रे स ववनिरखिला कन्दुक इव हरिक्वास्तीत्युक्ते दनुजपदिना पूरीनिखिलं जगन्नाथैस्तम्भान्नरहरिशरीरेण करजैः समुत्पत्त्याशूरा वसुरवरमादारिदवदस्तव ख्यादा भूमन् किमु जगदिनो सर्वगददा विलोक्याजं द्वार्गं कपडलघुकायं सुररिपुर्निषिद्धोऽप्रादादसुरगुरुणात्मीयमखिलं प्रसन्नस्तद्भक्रिया त्यजसि किल नाद्यापि भवनं बलेर्भक्ताधिन्यं तव विदिदमेवामरपते समाधावासकृतं नृपतितनयैर्वीक्ष्य पितरं हतं बाणैरोषद् गुरुतरमुपादाय परशुं विनाक्षत्रं क्षत्रं विष्णो क्षितितरमशेषं कृतवसो सकृत् किं भूभारोद्धरणपडुदा तेन विदिदा समाराध्यो त्रिभुवनमिदं वासवमुखं वशे चक्रे चक्रिन्नगणयदनिशं जगदिदं प्रदो सौरङ्गे शस्त्वचिरमथते बाणविषयं न क्वचिद् दिव्यं शौर्यं क्वचिदपि रणे का पुरुषदा क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणं क्वचिन्मृस्नाशित्वं क्वचिदपि च वैकुण्ठविभवश्चरित्रं ते नूनं शरणदविमोहाय पुयाम् न हिं स्यादित्येत् क्रुवमवितथं वाक्यमबुधैरथाग्निशोमीयं पशुमिदि तु विप्रैर्निगदितं तवै तन्नास्ताने सुरगणविमोहाय गददः समृद्धिर्नीचानां नयकरहि दुःखाय जगदः विभागे वर्णानाम् निगमनिचये चावनितले विलुप्ते सञ्जातो द्विजवरगृहे शम्बलपुरे समारुह्याश्वं स्वं लसदसि करो म्लयञ्च निकरान्निहन्तास्युन्मत्तान् किल युगपते कभीरे कासारे जलचरवराकृष्टचरणो रणे शक्तो मज्जन्नभयदजले चिन्तयदसौ यदा, यदा, यदा नागेन्द्रस्त्वां सपदि पदपाशादपगदो गदः स्वर्गं स्थानं भवति विपदां ते किमु जनः सुतैः पृष्ठो वेथा प्रतिवचन दाने प्रभुरसावथात्मन्यात्मानं शरणमगमत्वां त्रिजगतां ततस्ते स्तादङ्गा ययुरथमुदं हंसवपुषा त्वया ते सार्वज्ञं प्रथितमरेषेह किमुनो समाविद्धो मादुर्वचनविशिखैराशुविपिनम् तपश्चक्रे गत्वा तव परमतोषाय परमम् ध्रुवो लेभे दिव्यम् पदमचलमल्पेऽपि मा वयसि किमस्त्यस्मिल्लोके त्वयि वरद तुष्टे दुरधिकम् वृकाद्भेदस्तूर्णं स्वजनभयभित्त्वां पशुपतिर्भ्रमल्लोकान् सर्वान् स्वयं शरणभूपयादोधदनुजः स्वयम्भस्मीभूतस्तव वचनभङ्गोद्गदमरी रमेशाहो माया तव दुरनुमेया किल जनैः हृदम् दैत्यैर्दष्ट्वा नृतकडमजयैस्तु नयतः कडाक्षैः सम्मोहम् युवतिवरवेषेणदिति जन् समग्रम् पीयोषम् सुभग सुरपूगाय ददतः समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः समाकृष्टा दुष्टैर्दुपदतनया लब्ध शरणा सभायाम् सर्वात्मंस्तव शरणमुच्चैरुपगदा समक्षम् सर्वे शामभवदचिरम् चीरनिचयः स्मृतेस्ते साफल्यं नयनविषयं नो किमु सदा वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे गवां लोकं लोकं फणिनिलयपातालमितरे तथान्येक्षिरोदं हृदयनलिनं चापि तु सदां न मन्ये स्थानम् त्वहमिह च यत्रासिन विभो शिवोऽहं रुद्राणामहमरराजो दिविषदां मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसा कुबेरो यक्षानामिदितववचो मन्दमदये न जाने तज्जाधं जगदिननुयन्नासि भगवन् शिरो नागोनेत्रे शशिदिनकरावं परमुरो दिशस्रो देवाणी निगमनिगरस्ते कडिरिला अकूपारो बस्तिश्चरणमपि पादालमिति वै स्वरूपं ते ज्ञात्वा नृतनुमवजानन्दिकुधियः शरीरं वैकुण्ठं हृदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो मदिर्यमधो सागरसुधा विकारस्ते वस्तात्रयमसवः पार्षदगणो न पश्यत्यज्ञात्वामिह बहिरहो यादिजनदा सुघोरं कान्तारं विशति च तडागं सुगहनं तथोत्तुङ्गं शृङ्गम् सपदि च समारोहति गिरेः प्रसूनार्थं चेदोऽम्बुजममलमेकम् त्वयि विभो समर्प्याज्ञस्तूर्णम् वदन च सुखम् विन्दति जनः कृतैकान्तावासा विगतनिखिला शाशमपरा जितश्वाःसोच्छ्वाः सास्तृडित भवपाशाः सुयमिनः परम् ज्योतिः पश्यन्त्यनख यदि पश्यन्तु दु। मम तु श्रिया सृष्ठम् भूयान्नयनविषयम् ते किल वपुः कदा व्यङ्गोत्तुङ्गामलतरतरङ्गाच्छपुलिने प्रसन्नाशापाश्चादखिल खलदाशादपगदः अये लक्ष्मी कान्दाम्बुजनयन तातामरपदे प्रसीदेत्या जल्पन्नमरवर नेष्यामि समयं कदा शृङ्गैफीदे मुनिगणपरीदे हिमनगे द्रुमावीरे शीरे सुरमधुरगीरे प्रदिवसन् क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं स्मरस्थे पादाब्जं जनिहर समेष्यामि विलयं सुधापानं ज्ञानम् न विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगोपरमणं जपो नो नो तीर्थं व्रतमिह न चोग्रं त्वयि तपो विना भक्रिं हेलं भवभय विनाशायमधुहन् नमः सर्वेष्ठाय श्रुधि शिखरदृष्ठाय च नमो नमो संसृष्टाय त्रिभुवननिविष्ठाय च नमः नमो विस्पष्टाय प्रणवपरिमृष्ठाय च नमो नमस्ते सर्वात्मन् पुनरपि पुनश्चे मम नमः कणान् कश्चिद्वृष्टे गणननिपुणस्तूर्णमवनेस्तथा शेषान् पांसूनमिद कलये चापि तु जनः नभपिण्डीकुर्यादशिरमपि चेच्छर्म वदिदम् सीमोच्छिदमविषयं वेदवचसां विभोते मे चेदक्वच विविधतापाकतमिदम् मयेदं यत्किञ्चिद् गदिदमध बाल्ये तु गुरो गृहाणैतच्छुद्धार्पितमिह न हेयं हि महदाम् इति हरिस्तवनं सुमनोहरम् परमहंसजनेन समीरिदं सुगमसुन्दरसारपदास्पदं तदिदमस्तु हरेरनिशमुदे गदारधाङ्गाम्बुजकम्बुधारिणो रमा समाश्लिष्टतनोस्तनोतु शिवं स्तवोस्रमयं परं हरेः पठेदिमं यस्तु समाहिदो परं स्तवं समाहितो कौकखनप्रभञ्जनं स विन्ददेत्राखिलभोगसम्पदो महीयदे विष्णुपदे तदो ध्रुवम् इति श्रीमत् परमहंसस्वामिब्रह्मानन्दविरचितं श्रीविष्णुमहिम्नस्तोत्रं सम्पूर्णम् ओ